Oh यदेकेन सर्गस्थापयति यज्ञस्य सन्तत्याच्छेदायीन्द्राशभोजयुष्कदागीन्द्रा सन्ताग्निभ्यालभ्यन्ते देवताभ्य श्रमदन्दधाुभो या न वाक्या कुर्याद्येयेस्तेना ज्ञेयाय तृष्टु हस्तेन ऐन्द्राः समर्धेन देवताभ्य श्रमदन्धधा दिवा ीयत्पदे तु परमानभते तस्मार्दीश्वमेव तत्रस्यानुन्माद्नो नियुत्पदे भवनस्यानुन्मादाय वायमतेश्चेदवदेया भवदस्त्यगर्भवर्तता त्याघारमाघायते प्रजाप सर्वे निरन्यप्रजापदे सर्वाणि वा एषरूपानि पशूनां प्रत्यानभ्यते यश्नस्तत्पुरुषानागं लोपोपरस्तदश्वानाङ्गतो सन्तव्यङ्गिव्यायव सभारजस्तरजानाम् वायुर्वे पशूनां प्रियन्धामयद्वायव्याभव केतमेव सञ्जाना पदवपुपदत्तम् देवायव्यः कार्या राजामर्त्याव्यं कुर्यात् प्रजापुरे यद्यत् प्राजापत्यं कुर्यात् प्रागौर्याद्यद्वायव्यप्रशुर्भवति तेन वायोन्नैजयत् प्राजापत्यः पुराणासो भवति तेन प्रजापतेर्नैजयद्वादश गानस्तेन वैश्वानलान्नैत्या गावेष्टवमेकादशगपालं धर्मपति शिष्यमाण र्वा देवता विष्णो यज्ञो देवताञ्चारज्ञरममो देवताः परमो यदा ज्ञा वैष्णवमेकाधवालं निर्गपति देवता देवो भयदपर्यज्ञानो वरुन्धे पुरोडा च नवे देवामुष्णन्लोकार्धुरं चरुणात्मनयः कामये दामुष्किन् लोकरुध्रियामित पुरोडाशङ्कुरुवेतामुष्मण्डे ष्टागपालस्य न वैष्णव समध्ये यः कामये दास्पकरध्रयातिष्ठत्यन्त संवत्सरो वा अर्गर्वैश्वानरो यथा संवत्सर दयनार्तिमानुषत्रे वाग्ने प्रियातमो येश्वानरः प्रिया मे वास्य तनुम वरुन्धेत्रीन् नेतान्य हेत्रयिमे लोकानेशाम् लोकानागुरो जा सृष्ट्वा प्रेणानुप्रापि सत्ताभ्यः पुनः सम्भवितुम् न शक्नोत् सब्रवीदृत्सयो मेतः पुनः सञ्चिन देवा समजिन्मन्ततो वेता समजिन्वन्तं विद्वानग्निध्नाग्निश्चेत्याहुरग्निवानसा श्चेयदग्निवानेव भवति कस्मैकमग्निश्चेयद गित्याहुर्देवान्दिदुरैनन्दे वा कस्मैकमज्ञश्चैत गित्याहुर्गृह्यसानेति वाज्ञश्चेयदे गृह्येव भवति कस्मैकमग्निश्चेयद गित्याः पशुमानसानेति वायदे पशुमानेव भवति कस्मैकमग्निश्चैक गित्याहुस्सप्तमा पुरुषा श्चेयते त्रयः प्राञ्चस्त्रयः प्रत्यञ्च आत्मा सत्तमगे तावन्तये वैणममुष्मन् जीवन् प्रजापतिमजेण सम्पृथव्याग् यज्ञञ्चक्ष्यति सात्वाभिश्चे भविष्यसे विवे तथा वा अहङ्करिष्यामि यथा इमामभ्यमृषत् प्रजापतिस्त्वासादय दुतगा हे मदयाङ्गस्मध्रुवासी चेति मामेवेष्टगान् कृतोपासत्तान दिनाहाय यत्प्रत्यग् प्रजापतिस्त्वादादय दुतगा दे मदयाङ्ग्रुवासी ्यः प्रैवजायते ब्रमन्तत्वमजनिष्ठा भयं प्रजागामःत्रयस्त्रं शतञ्च भार्य प्रैवजायते तान् रुद्रा ब्रमन् प्रयोमजनिध्वम् भयम् हा युतगुं रुद्रभ्य प्रायच्छन्तगुंशदान्यविभरस्त्यनत्रेण च शतान्यत्रयत्र गंशतञ्जस्माच्चदहम्भार्य प्रयोजाय देतानादित्याः ब्रुवन् प्रयो यमजनिध्वम्भयम् प्रजागामः यादित्यभ्यप्रायच्छन्तन् द्वादशाहम् भार्य प्रैवजायते तेन वैते सहस्रमसृजन्तो कागुसहस्रतमीम् सहस्रम् वेदप्रतहस्रम् असूनाप्नोति यदुषा वा क्रियते यदुषा पच्यते यिदुषा विमुच्यते यदुकाला वा एषैतरि यातया एषा तव यक्ष्वायुते महूतमा युकायाञ्जोैनाम् पुनः प्रयुङ्क्ते न यातयां ज्ञेयो वाग्नियोगागते युलक्तियुङ्क्ते तव यक्ष्वागते यो यच्च हैनवाग्नेर्योगश्च नैवैनयुनत्ति युञ्जयुञ्जाने स ब्रह्मवादिना वदन्तिन्यग्निश्च तव्या य साम्वादे प्रतिमया दीयते माहुदयज्ञयादशवर्गस्य स्यात् प्रायेण माहुदयच्छन्ति नगस्य भवति सौर्याय होरिचक्षुरेवास्मिन्प्रति दधा हो विद्वे हि चक्षुरे मान्याय कृष्णेवासास्तिन्यत्तासन्ते वामम् वसुसन्यदशद्धेवा वृङ्गदवामभृत वामभृतमुपसादिर्वस्य वृङ्गै हिरण्यमोऽर्ध्वे भव ज्योतिर्वै हिरण्यम् ज्योतिर्वामम् ज्योतिषैवास्य ज्योतिर्वामम् वृङ्गद्वयतिर्भवति प्रतिष्ठित्यै स्य पत्रया सन्ताज्ञरभ्यध्यायत्ताः समभवत्तस्तरेतः परापदत्तदियम् भवद्यद्वितीयम् परापदत्तदसा भवदीयम् मे विराटसौ स्वराज्ञद्विराजा उपदधाति मे एवमुपधत्ते यद्वासौ रजसिञ्च दिवस्यामे प्रजायते े स्यात् प्रथमायां तस्य प्रथमायां तस्य चित्याम्यामपदध्यानुत्तमायामन्यागं रतये मास्यसिक्तमाभ्यामुभयतः परिगृह्णादियं वत्सरन्न प्रत्यवरो हेण्नप्रत्यवरो हरस्तदेन हृदययो मा भव दे यस्य भिमनसाद्मजो विश्वाहावत्यशीर्षाणमेवाग्निर्पण्डा भवति यग एवं वेद सुवर्गाय वायते सुवर्ग्यमस्य वर्ग्यश्चितिमुपधा गाभिश्चित्यमचित्त्यञ्चन वद्य विद्वान् पृष्ठैव पीतान् धाय स्वपत्यायते वदिलिञ्चरा स्वाल्यमऋष्येतृ यथा पूर्वमेवैनामुपधत्ते प्राञ्चमेन सुवर्गस्य भवति विश्वकर्मादिशां पदिस्वनः पशोन्पादसो नमः प्रजापदे पदिस्सनः पशोन्पादसः पादस्ते नेता वै देवता एतेषा पशूनामधिपदयस्ताभ्यो वागे च आमिष्टः पजुशीर्षान्यपदधा हिरण्येष्टकामुपदधा नमस्करो ब्रह्मपालिनो वदन्त्यज्ञो ग्राम्यान् पशून् प्रदधायति किं तदमुच्चंशतेनैव ग्राम्येभ्यः पशुभ्य भेणो प्रथमा स्वयमादर्णास्तृतीया स्वयमादर्णानुपधाय प्राणेनैव प्राणगम् समर्धय दृ द्वितीयामुपधायज्ञानेनैव ज्ञानम् समर्धयत्यपान्या तृतीयामुपधायानेनैवापानगम् समर्धयत्यथो प्राणेनैवर्भुवस्वधिस्वय मा दुर्णानुपदधाति मे वै लोकास्पयमादर्णायताभ्यः खलु वैन्याहतेभ्यः प्रजापति जाय लयदेताभि्याहतेभ्यमाधर्णा उपदधा धीमानेव लोकानुपधायीष्लोकेश्व प्रजाय ने प्राणाय व्यानायापानाय पाचे पाचक्षुषे रादया देवदयाङ्ग्रुवासी वै देवा सुवर्गम् लोकमजिगागुंसन्ते नुवन्तयमाधर्णा अपश्यन्ता दिक्षोपादश सर्वदश्चक्षुषा सुवर्गम् लोकमायनयच्छदस्तना दिक्षो पदधारि सर्वदश्चक्षुषै वदग्ना यजमानस्तु वर्गम् लोकमेरि ग्नायाधिवेदयित्याहात्मदैवेन मग्निम् दोजम् प्रणेमह यत्याहोेनम् प्रणेतेऽग्निनाग्निः समिद्ध जयित्याह समिन्धगेवेन मग्नवत्राणि जङ्घणयित्याह समिद्धगेवस्मिन्निन्द्रियम् दधात्यग्ने स्तोमम् वरामः यैत्याह मनत एवेन वेदानि वाह्णागौ रूपाण्यन्वहगेवेनवाह्णागौ रूपाणि लुन्धे ब्रह्मपादिना वदन्त्यस्मात् सत्यान्यायष्टगायया दयां नेलोकं प्रणे भ्राग्नेहास्पत्यै प्रो यादिन्द्राग्नेवानां बृहस्पतिश्चायादयामानोभवर्चामित्वायानुष्ठानुरख्यात्मा वेलोकं प्रणो नृष्टुत्तस्मात् प्राणः सर्वाण्य इत्याश्रेणन्नं वेन्नमेवावरुन्धे को वाग्यर्कोऽन्नमन्नमेवावरुन्धे जन्मन् देवानांष्वारोदने दिव इत्याहेवानेवालोकान् सो युष्पदः करोधि यो वाधिष्ठानां प्रतिष्ठां वेद प्रत्ययवतिष्ठति गयादे ध्रुवादीदेत्यारैषा वायिष्टकानाम् प्रतिष्ठाय एवम् वेदप्रत्ययतिष्ठति स्वर्गाय वायेन लोकाय जीवते यदज्ञर्वज्रग एकादशिने यदज्ञानेकादशिनेयम् मिलयात् वज्रेणसुवर्गाल् लोकालम् दर्दध्याद्यन्नमिळयात् स्वरभिः पशोऽन्यर्थयेदेकयोपन्विनोदिनैदम् वज्रेण सुवर्गान् लोकालम् दर्दसाधुनः स्वरभिः ृद्रोवायेणेत्रस्य ऋश्वरस्य नो चेताभ्यो वायिनुतेत्वा ऋषन्मवयाचितं ब्राह्मणाय दध्यात्ताभ्यदेव नमस्करोताभ्यदेव क्तेरुद्रपुरोधनस्तद्वातो अनुभाजते तस्मै दे रुद्रमस्करो मियक्ते रुद्रदक्षिणार्थद्वातो तस्मै ते रुद्रवैवत्सरेण नमस्करोयत्यै रुद्रपश्चार्थद्वातोनुवादुते तस्मै ते रुद्रे तावत्सरेण नमस्करो नियक्ते रुद्रोत्तरार्धनस्तद्वातो अनुभाजते तस्मै तैरुद्रे दुवत्सरेण ैरुद्रोस्तद्वानुवाद चैरुद्रवत्सरेण नमस्करोमिद्रो वातिष्ठतिष्ठेमेणंशमयः पुरेश्यापि प्रविष्टाः प्रथिमे मनो एतामः प्रणो जीवादवे आपन्त्वाग्नेमनसापन्त्वाग्नेतपसापन्त्वाग्नेया पन्त्वाग्नेपशद्भिलापन्त्वाग्ने सुया पन्त्वाग्ने दक्षिणाभिलापन्त्वाग्नेनापन्त्वाग्ने वशयापन्त्वाग्ने काले नेत्याहैषा वा अग्नेलाप्यस्तयैवैन प्राप्नोति यत्रेण पुनश्चादुपतिष्ठते प्राणमेवास्मिन् तथा बृहत्पसदाबोधयेवास्मिन् तथा तृतस्थाय न्यायज्ञेन पुच्छपतिष्वेव प्रचतिष्ठते पृष्ठैरुपतिष्ठते चे पृष्ठाधिचर्येवास्मिन् तथा च प्रजापतिरग्निवसृजतसोऽस्माच्छं वारवन्ते येनावारैलद्वारवन्ति यस्य वारवन्ति यत्त्वशैतेन शैति अकुरुतश्चैतस्य शैतत्वेनोपतिष्ठते भारयत केवैरश्चैतेन शैति कुरुते प्रजापगे हृदयेनापि वक्षं प्रत्युपतिष्ठते प्रेमाणमेवास्य गच्छति प्राच्यात्वादिन्दमिना देवतयाग्ने श्रेष्णाग्ने श्रिणया सादयामित्रैस्तुभेन छन्दसेन्द्रेण देवतयाग्ने पक्षेनाग्ने पक्षमुपदधामि प्रती च त्वा सादादयामि जागते नन्दसामित्रा देवतयाग्ने पुच्छेनाग् पुच्छमुपदधाग्निरे चादिदयाज्ञानस्तुभेन छन्दसामित्रावरुणाभ्यां देवदयाग्ने पक्षेनाग्ने पक्षमुप यात्मा दिशा सादयामि मान्ते न छन्दधा बृहस्पतिना देवतयाग्ने पृष्ठेनाज्ञे पृष्ठमुपदधामि यो मानमग्निञ्च न देपात् त्वामुष्मिल्लोके भवदेस्सात्मामिञ्च न देशात्त्वामुष्मिं लोके भवत्यात्मने प्रजा उपदधा देशाग्नेरात्मा सात्मानमेवाग्निञ्च न देशात्मा ेद अग्नमुदधया तयुजर्युवानामतया नामृदस्यास्त्येन मस्तस्याजैवन्तो भूयास्माग्ने गैकुशिलमन्यया तयिषर् युवानामतया नाम ऋणस्यास्त्येन मस्तस्याजैवन्तो भूयास्तपञ्च वातेः पञ्च ुदेन च प्रदयदेताहुदेर्जहा प्राणावाक्षश्चक्षुःकर्णयो श्रोत्रं बाहुवार्बलभोरवरोजोरिष्टा विश्वाण्यङ्गानिस्तदुपामे प्राणैत्याह प्राणाने धत्तेयो रुद्रो अग्नौ य अप्सुयोद्र विश्वाहो न विवेश तस्मै रुद्रा जनमो अस्त्वाहुतिभागा वा अन्ये रुद्राहविद्भागा अन्येषु च रुद्रे भूत्वा गा विधलमेतेन रमायामिट्टगाया ेनैवेनकम् समेलितस्यैरुद्रैलकम् इत्यास्त्वा रुद्रे पुरस्तात्पान्द्रस्ता यान् त्वादित्यास्त्वा विश्वे देवे स्पश्चात्पान्दुस्त्वामारुतो मरुद्भिरुक्ततु देवास्त्वेन्द्र ज्येष्ठा वरुणराजानोधस्ताच्च चीनम् प्रोक्षदिगत्सञ्जितमाद्येन प्रोक्षदितेन भूतस्तेन प्रोक्षितः समेते नमाधिप्ता जयितस्य सत्यग्रधिपति रक्षितो रक्षिकाष्टाधिवचनीयस्तप्ता दात् दानमस्तौ नामले दानते यन्दुष्मायश्च नाद्वेष्ठिं भान्दम् भेदां भ्योजस्मिने नामारक्षिना जयितस्य कृत्रिग्रधिवचप्रदा गोप्राजेनार प्रतिजयितस्य अक्तो सोमदेवनिष्पज अवस्थावानमस्तुते धिपतिपतर्यश्चितंग्नि लिम्बानामश्च जय राम्ब दक्षिणाग्रहामश्चय रामष्टाग्रहास्वप्नवैष वस्थावानो नामश्चते वैरवावस्वान् ेवो भयान् प्रेनायध्रामैताहुदेजहो नैवेन् सोकल्वाहुरिष्टकाविदेवाहुतादयच्छलपरिक्रामञ्जहापरिवर्गमेवेनान् प्रेनादेवस्तनमोर्जस्पन्दन्धयामाम् प्रज्ञातमग्ने मध्ये उत्सञ्जुषस्त्वमधुमन्द्रमोपसमद्रिशुंसलनमाविशस्मान् ग्निम् प्रयज्य न विमुञ्चते यथा श्विक्त्वा विमुच्यमानः क्षुभ्यन् परा भवत्येवमस्याज्ञः परा भवति परा भवन्तजमाना न परा भवति सोऽत्वा लोक्षो भवति मग्नस्तनमोर्जस्पन्दया विमोक विमुच्यैवास्पान्नमपि तथा चि तस्मादाहुर्यश्चैवम् यकौ हवै वाजेत हितो यज्ञर्वाम वाजेतमेवदः प्रेणादिहरणम् वेतः प्रेणा दिवसीयान् न्द्रायणाज्ञेशोकर वरुणागराज्ञे कृष्णो यमागराज्ञभाजराज्ञे कवयशागराज्ञे गौरःपूर्णराजागमर्कणः प्रश्नस्य मत्तिकाली लङ्गो कृष्णोमस्कराज्ञः पुलुङ्गः सिन्धोः श्रीगुंसुमार हिमवतो हस्ते मय प्राजापत्यगोलोहनेशस्ते धातुः सरस्वत्येश्वेताेतः पुरुषवाकारण्यो न कुलश्च काचे कौष्णावाचे क्रौञ्चः अपमान्नत्रे मगरकुलेकयस्ते कोपालस्य वाचे तयीन्द्रराजोभगायभ्येतक आतीव हसोदर्विदाते वा हलायाचकर आभुसृजया शयण्डकस्ते मैत्रामृत्यवे ऋतो मन्यवेकुम्भेन पुष्करधातोश्रुत्कायैवाहसः पुरुषमृगश्चन्द्रमसे गोधाकालकालार्वाधारेव वनस्पतीनामेऽन्ये कृष्णो रात्रिगहक्ष्मीङ्गारेण्यम्मे धातुः कर्कटः सौरेफलाकश्चो मयूरश्यैलस्य गन्धर्वाणाम् वसूनाम् कपिञ्चलो रुद्राणाम् त्यजीरोहित्कुण्डलाजे गोलप्पि गाता अक्षरसामरण्यायश्रमलः वेयेष्वेव पित्वान्यम् गोकशस्ते न हत्यान्यपापोऽद्धमासानाम् मासाङ्गयः पुटरुद्धा जौहस्तेऽधि ने बाल्ये पुरहस्पृजये पुटः शशका भूमेपान्तः कसो माञ्चेलभस्ते पुदृणाकपोतश्चेदृमागुस्तावित्रः पुरोगनाथ शकुनःपिप्पकाले सरव्याये हरिणो मारुभस्थिलेष्णा न्द्रक्षमुद्रा मध्यः प्लवस्ते वामनित्रेहकंस सा चेन्द्रान्ये के कक्षेस्ते ध्याद्या स्वामि सुपर्णः पाध्याहकुंस वृतापषतकंसस्त ऐन्द्रा अपामुद्राजस्थ्यम् ह्याघ्रस्ते महेन्द्राय कामाय परस्पाय ज्ञेयः कृष्णगेवः सारस्वती वैदेवभ्रः सौम्यः पौष्णश्यामस्यति पृष्ठो वा नृहस्पत्यः शिल्पो वैरेष्वदेव ऐन्द्र रुणो अश्वस्थोपरोगो मृगश्चेत् प्राजापत्या आत्रौ लो मधुद्धौ पृष्ठौत्यौ धात्रे धनः सौर्यो बलक्षःपेत्वः अज्ञयनीगवदेवोहिताञ्जलनड्वानधोरामोधामित्रो मौष्टौरजनाभीभेश्वदेवोऽभिषङ्गौतो परो मारुदः कल्माणः ज्ञेयः कृष्णोजः सारस्वती मे देवारुणः कृष्णयगसिपा